वैशम्पायन उवाच क्षणङ्कुरु महाराज विपुलोऽयमनुक्रमः पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः महर्षेः सर्वलोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतम् कृत्स्नम् व्यासस्यामिततेजसः इदम् शतसहस्रं हि श्लोकानाम् पुण्यकर्मणाम् सत्यवत्यात्मजेनेह व्याख्यातमवितौजसा य इदम् श्रावयेद्विद्वान् ये चेदम् शृणुयुर्नराः ते ब्रह्मणस्थानमेत्य प्राप्नुयुर्देवतुल्यताम् इदम् हि वेदैः समितम् पवित्रमपि चोत्तमम् श्राव्याणामुत्तमम् चेदम् अस्मिन्नर्थश्च धर्मश्च निखिले इतिहासे महापुण्ये बुद्धिश्च परिणैष्ठिकी अक्षुद्रान् दानशीलांश्च सत्यशीला कार्ष्णम् वेदमिमं विद्वान् चावयित्वार्थमश्नुते भ्रूणहत्याकृतम् चापि पापम् जह्यादसंसयम् इतिहासमिमम् श्रुत्वा पुरुषोऽपि सुदारुणः उच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा जयो नामेतिहासोऽयम् श्रोतव्यो विजिगीषुणा महीम् विजयते राजा शत्रूंश्चापि पराजयेत् इदम् पुंसवनम् श्रेष्ठमिदम् स्वस्य इनम् महत् महिषी युवराजाभ्याम् श्रोतव्यम् बहुसस्तथा वीरम् जनयते पुत्रम् कन्याम् वा राज्यभागिनीम् धर्मशास्त्रमिदम् पुण्यमर्थशास्त्रमिदम् परम् मोक्षशास्त्रमिदम् प्रोक्तम् व्यासेनामित बुद्धिना सम्प्रत्या चक्षते चेदम् यथा श्रोष्यन्ति चापरे शुश्रूषवेश प्रियि शरीर कृत पापं वाचा च मनस्यजतिषिप्रईद श्रृणुया नर भार महजन्म शृण्वता मनसूयताधिभय परुत धन्यशस्मायुष्यं पुण्यंस्वर्ग्यं तथा च कृष्णद्वैपायनेनेदम् कृतम् पुण्यचिकीर्षुणा कीर्तिम् प्रथयता लोके पाण्डवानाम् महात्मनाम् अन्येषाम् क्षत्रियाणाम् च भूरि द्रविणतेजसाम् सर्वविद्यावदातानाम् लोके प्रथितकर्मणाम् य मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन् श्रावयेत महापुण्यम् तस्य धर्मः कुरूणाम् प्रथितम् वंशम् कीर्तयन् सततम् शुचिः वंशमाप्नोति विपुलम् लोके पूज्यतमो भवेत् योधीते भारतम् पुण्यम् ब्राह्मणो नियतव्रतः चतुरो वार्षिकान्मासान् सर्वपापैः प्रमुच्यते विज्ञेयः सच च वेदानाम् पारगो भारतम् पठन्